चाश सर्ग प्रभातायां शर्वी पृथुवक्षा महायशा उचराम सौमित्री लक्ष्मण शुभलक्षण भास्करसौ भगवती निशा असौ सुणो विहग कोकित बर्ना चोषाब तरामजाह्नवीम् सौम्य शीघ्रगाम् सागरङ्गमाम् विज्ञाय रामस्य वचः सौमित्रिर्मित्रनन्दनः गुहमामन्त्र्यसूतम् च सोऽतिष्ठद्ध्रातुरग्रतः स तु रामस्य वचनम् निशम्य प्रतिगृह्य चरति स्तोर्णमाहूय सचिवानिजमब्रवीत् तस्य वाहनसंयुक्ताम् कर्णग्राहवतीम् शुभाम् सुप्रताराम् दृढाम् तीर्थे शीघ्रम् नावमुपाहर तन्निशम्य गुहादेशम् गुहामात्योगतो महान् उपोह्यरुचिराम् नावम् गुहाय प्रत्यवेदयत् रतः स प्राञ्जलिर्भूत्वा गुहो राघवमब्रवीत् उपस्थितेयम् नोर्देव भूयः सागरगामिनी नौरियम् पुरुषव्याघ्रशीघ्रमारोह सुव्रता अथोवाच महातेजा रामो गुहमिदम् वचः कृतकामोऽस्मि भवता शीघ्रमारोप्यतामिति ततः कलापान् सन्नह्य खड्गौ बध्वा च धन्विनौ जग्मतुर्येण ताम् गङ्गाम् किमहम् करवाणीति सूतः प्राञ्जलिरब्रवीत् ततो दाशरथिः सुमन्त्रम् स्पृशम् करेणोत्तम दक्षिणेन सुमन्त्रशीघ्रम् पुनरेवयाहि राज्ञः सकाशे प्रमत्तः निवर्तस्वेत्युवाचैनमेतावद्धि कृतम् मम रथम् विहाय गमिष्यामो महावनम् आत्मानम् त्वभ्यनुज्ञातमवेक्ष्यार्थः सारथिः सुमन्त्रः पुरुषव्याघ्रमैक्ष्वाकमिदमब्रवीत् नातिक्रान्तमिदम् लोके पुरुषेणेह केनचित् सः राघव वैदेह्या भ्रात्रा चैव वनेऽवसन् त्वम् गतिम् प्राप्स्यसे वीरत्रीम् लोकाम् स्तुजयन्निव वयम् खलु हता रामये त्वया ह्युपवञ्चिताः कैकेय्यावशमेष्यामः पापाया दुःखभागिनः इति ब्रुवन्नात्मसमम् सुमन्तः सारथिस्तदा दृष्ट्वा दूरगतम् रामम् दुःखार्तो रुदचिरम् ततस्तु विगते बाष्पे सूतम् स्पृष्ट्वोदकम् शुचिम् रामस्तु मधुरम् वाक्यम् पुनः पुनरुवाचतम् इक्ष्वाकूणान् त्वया तुल्यम् सुहृदन्नोपलक्षये यथा दशरथो राजा माम् न शोचेत्तथा कुरु शोकोपहतचेताश्च वृद्धश्च जगतीपतिः कामभारावसन्नश्च तस्मादेतद्ब्रवीमिते यद्यथा ज्ञापयेत् किञ्चित् समःत्मा महीपतिः कैकेय्याः प्रियकामार्थम् कार्यम् तदविकाङ्क्षया एतदर्थम् हि राज्याणि प्रशासति नराधिपाः यदेषाम् सर्वकृत्येषु मनो न प्रतिहन्यते यद्यथा स महाराजो नालीकमधिगच्छति ना यतिशोकेन ना सुमन्त्रकुरु अदृष्टदुःखम् राजानम् वृद्धमार्यम् जितेन्द्रियम् ब्रूया स्वमभिवाद्यैव मम हेतोरिदम् वचः न चाहमनुशोचामि लक्ष्मणो न च शोचति अयोध्यायाश्च्युताश्चेति वने वत्स्यामहेतिव चतुर्दशसु वर्षेषु निवृत्तेषु पुनः पुनः लक्ष्मणम् माम् च सीताम् च द्रक्ष्यसे एवमुक्त्वा तु राजानम् मातरम् च सुमन्द्रमे अन्याश्च देवी सहिताः कैकेयीम् च पुनः पुनः आरोग्यम् ब्रूहि कौसल्यापथपादाभिवन्दनम् सीतायाममाचार्यस्य वचनाल्लक्ष्मणस्य च ब्रूयाश्चापि महाराजम् भरतम् क्षिप्रमाणय आगतश्चापि भरतस्थाप्यो नृपमते पदे भरतम् च परिष्वज्य राज्ये च अस्मत्सन्तापजम् दुःखम् न त्वामभिभविष्यति भरतश्चापि वक्तव्यो यथा राजनिवर्तसे तथा मातृष्वर्तेथा सर्वा स्वेवा विशेषतः यथा च तव कैकेयी सुमित्रा च विशेषतः तथैव देवी कौसल्या मम माता विशेषतः तातस्य प्रियकामेन यौवराज्यमवेक्षता लोकयोरुभयोः शक्यम् नित्यदा सुखमेधितुम् निवर्त्यमानो रामेण सुमन्त्रः प्रतिबोधितः तत्सर्वम् वचनम् श्रुत्वा स्नेहात् काकुत्स्थमब्रवीत् यदहम् नोपचारेण ब्रूयाम् स्नेहादविक्लवम् भक्तिमानिति तत्तावद्वाक्यम् त्वम् क्षन्तुमर्हसि कथम् हि त्वद्विहीनोऽहम् प्रति यास्यामि ताम् पुरी तव तातवियोगेन पुत्रशोकातुरामिव स राममपि तावन्मे रथम् दृष्ट्वा तदा जनः विना रामम् रथम् दृष्ट्वा विदीर्येतापि सा पुरी दैन्यम् हि नगरी गच्छेद् दृष्ट्वा शून्यमिमम् रथम् सूतावशेषम् स्वम् सैन्यम् दूरेऽपि निवसन्तम् त्वाम् मानसेनाग्रतस्थितम् चिन्तयन्तोऽद्यनूनम् त्वाम् निराहाराः कृताः प्रजाः दृष्टम् तद्वै त्वया राम यादृशम् त्वत्प्रवासने प्रजानाम् सङ्कुलम् वृत्तम् त्वच्छोकक्लान्तचेतसाम् आर्तनादो हि यः पौरैरुन्मुक्तस्त्वत्प्रवासने सरथम् माम् निशाम्यैव कुर्युः शतगुणम् ततः अहं किम् चापि वक्ष्यामि देवीम् तव सुतो मया नीतोऽसो मातुलकुलम् सन्तापम् मा कृत इति असत्यमपि नैवाहम् ब्रूयाम् वचनमीदृशम् कथमप्रियमेवाहम् ब्रूयाम् सत्यमिदम् वचः मम तावन्नियोगस्थास्त्वद्बन्धुजनवाहिनः कथम् रथम् त्वयाहीनम् प्रवाह्यन्ति हयोत्तमाः तन्न शक्ष्याम्यहम् गन्तुमयोऽध्याम् त्वदृतेनघा वनवासानुयानाय मामनुज्ञातुमर्हसि यदि मेया च मानस्य त्यागमेव करिष्यसि स रथोऽज्ञम् प्रवेक्ष्यामि त्यक्तमात्र इह त्वया भविष्यन्ति वनेयानि तपो विघ्नकराणि ते रथेन प्रतिबाधिष्येतानि सर्वाणि राघवा त्वत्कृतेन मया प्राप्तम् रथचर्या कृतम् सुखम् आशंसे त्वत्कृतेनाहम् वनवासकृतम् सुखम् प्रसीदेच्छामि ते रण्ये भवितं प्रत्यनन्तरः प्रीत्याभिहितमिच्छामि भवमे प्रत्यनन्तरः इमेऽपि चहया वीर यदि ते वनवासिनः परिचर्याम् करिष्यन्ति प्राप्स्यन्ति परमाम् तव शुश्रूषणम् मूर्ध्ना करिष्यामि वने वसन्न अयोध्याम् देवलोकम् वा सर्वथा प्रजहाम्यहम् न शक्या प्रवेष्टुम् सा मया विना राजधानी महेन्द्रस्य यथा दुष्कृतकर्मणा वनवासे क्षयम् प्राप्ते ममैष मनोरथः यदनेन रथेनैव त्वाम् पुनः चतुर्दश हि वर्षाणि सहि तस्य त्वया वने क्षणभूतानि यास्यन्ति चान्यथा भृत्यवत्सल तिष्ठन्तम् भर्तृपुत्रगते पथि भक्तम् भृत्यम् स्थितम् स्थित्या न मा त्वम् हातुमर्हसि एवम् बहुविधम् दीनम् याचमानम् पुनः पुनः रामो भृत्यानुकम्पीतु सुमन्त्रमिदमब्रवीत् जानामि परमाम् भक्तिमहन्ते भर्तृवत्सला शृणु चापि यदर्थम् त्वाम् प्रेषयामि पुरीमितः नगरीम् त्वाम् दृष्ट्वा जननी मेयवीयसी कैकेयी प्रत्ययम् गच्छेदिति रामो वनम् गतः विपरीते तुष्टिहीना वनवासम् गते धार्मिकम् एष मे प्रथमः कल्पो यदम् वा मेयवीयसी भरता रक्षितम् स्फीतम् पुत्रराज्यमवाप्स्यते मम प्रियार्थम् राज्ञश्च सुमन्त्रत्वम् पुरीम् व्रज सन्दिष्टश्चापि यानर्थाम् स्ताम् स्तान् ब्रूयास्तता लता इत्युक्त्वा वचनम् सूतम् सान्त्वयित्वा पुनः पुनः वचनमक्लीबो रामो हेतुमदब्रवीत् नेदानीम् गुहयोग्योऽयम् वासोमे सजनेवने अवश्यमाश्रमे वासः कर्तव्यस्तद्गतो विधिः सोऽहम् गृहीत्वा नियमम् तपस्विजनभूषणम् हितकामः पितुर्भूयः सीताया लक्ष्मणस्य च जडाः गमिष्यामि न्यग्रोधक्षीरमानया तत्क्षीरम् राजपुत्राय गुहः क्षिप्रमुपाहरत् लक्ष्मणस्यात्मश्जटा दीर्घबान रव्याघ्रो जटिलमार तौ तदाची सपन्नौ जटा मंडलधारिण अशोभेता सर्गस्थि सह लक्ष्मण व्रतमादा गुहम्रवीत अप्रमत्तो बले कोशे दुर्गे जनपदे तथा भवेथा गुहराज्यम् हि दुरारक्षतमम् मतम् ततस्तम् समनुज्ञाप्य गुहमिक्ष्वाकुनन्दनः जगामतोर्नवव्यग्रः सभार्यः सह लक्ष्मणः स तु दृष्ट्वा नदीतीरे नावमिक्ष्वाकुनन्दनः स्थितीर्षुशीघ्रगाम् गङ्गामिदम् आरोह त्वम् न रव्याघ्रस्थितान् सीतां शनैः सीताञ्चारोपयान् वक्षम् परिगृह्यमनस्विनीम् सभ्रादुःशासनम् श्रुत्वा सर्वमप्रतिकूलयन् आरोप्य मैथिलीम् पूर्वमारुरोहात्मवांस्ततः अथारुरोह तेजस्वी स्वयम् लक्ष्मणपूर्वजः ततो निषादाधिपतिर्गुहो ज्ञाती न राघवोऽपि महातेजानावमारुह्यताम् ततः ब्रह्मवत्क्षत्रवच्चैव जजापहितमात्मनः वाचम् यच यथा शास्त्रम् नदीम् ताम् सहसीतया प्रणवत्प्रीतिसन्तुष्टो लक्ष्मणश्च महारथः अनुज्ञाय च सबलम् चैव तम् रामस्तु चोदयामासनाविकान् ततस्तैश्चालिता नौका कर्णधारसमाहिता शुभस्भ्यवेगाभिहता शीघ्रम् सलिलमत्यगात् मध्यम् तु समनुप्राप्य भागीरथ्यास्त्वनिन्दिता वैदेही प्राञ्जलिर्भूत्वा तान्नदीमिदमब्रवीत् पुत्रो दशरथस्यायम् महाराजस्य धीमतः निदेशम् पालयत्वेनम् गङ्गे चतुर्दश हि वर्षाणि कानने भ्रात्रा सह मया चैव पुनः प्रत्यागमिष्यति ततस्त्वाम् देवि सुभगे क्षेमेण पुनरागता यक्षे प्रमुदिता गङ्गे सर्वकामसमृद्धिरी त्वम् हि त्रिपथगे देवि ब्रह्मलोकम् भार्या चोदधिराजस्य लोकेऽस्मिन् सम्प्रदृश्यसे सा त्वाम् देवि न मस्यामि प्रशंसामि च शोभने प्राप्तराज्येन रव्याघ्रे शिवेन पुनरागते गवांशतसहस्रम् च वस्त्राण्यन्नम् च पेशलम् ब्राह्मणेभ्यः प्रदास्यामि तव प्रियचिकीर्षया सुराघटसहस्रेण मांसभूतौदनेन च यक्ष्ये त्वाम् यानि त्वत्तीरवासीनि दैवतानि च सन्ति तानि सर्वाणि यक्ष्यामि तीर्थान्यायतनानि च पुनरेव महाबाहुर्मया भ्रात्रा च सङ्गतः अयोध्याम् वनवासा त्वप्रविशत्वनघोनघे तथा सम्भाषमाणा सा सीता दक्षिणा दक्षिणम् तीरम् क्षिप्रमेवाभ्युपागमत् तीरम् तु समनुप्राप्य हित्वा नरर्षभः प्रातिष्ठत सह भ्रात्रा वैदेह्या च परन्तपः तथा ब्रवीन्महाबाहुः सुमित्रानन्दवर्धनम् भव संरक्षणार्थाय सजने विजने पिवा अवश्यं रक्षणम् कार्यं मद्विधैर्विजने वने अग्रतो गच्छसौ मित्रे सीता त्वामनुगच्छतु पृष्ठतोऽनुगमिष्यामि सीताम् त्वाम् चानुपालयन् अन्योन्यस्य हि नो रक्षा कर्तव्या पुरुषर्षभा न हि तावदतिक्रान्ता सुकरा वैदेही वनवासस्य वेत्स्यति प्रणष्टजनसम्बाधम् क्षेत्रा रामविवर्जितम् विश्रमम् च प्रपातम् च श्रुत्वा रामस्य वचनम् प्रतस्थे लक्ष्मणोऽग्रतः अनन्तरम् च सीताया राघवो रघुनन्दनः गतम् तु गङ्गा परपारमाशु रामम् सुमन्त्रः सततम् निरीक्ष्य अध्वप्रकर्षाद्विनिवृत्तदृष्टिर्मुमोचबाष्पम् यथितस्तपस्वी स ततः समृद्धान् मालिनक्रमेण वत्सान्मुदितानुपागमत् तौ तत्र चतुरो महामृगान् वराह मृष्यम् पृषतम् बुभुक्षितौ वासाय इत्यार्षे श्रीमद् रामायणे आदिकाव्ये अयोध्याकाण्डे द्विपञ्चाशः